शराय महादेवाय त्र्यम्बकायत्रिपुरान्धकायत्रिकालाग्निकालाय का कालाग्निरुद्राय नेलकण्ठाय मृत्युञ्जयाय सर्वेश्वराय नमः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 मानावधे पितरम् मोदमादरम् वृजामानस्तनुवो रुद्ररीरुषः मानस्तोके तनजय मान आयुषि मानो गोषु मानो, मानो अश्वेश्वरीरुषः वीरान्मानो रुद्रभामितो विश्वम् तो नमसा विधेमते आरात्ये गोग्नपदपूरुषर्धे क्षयद्वीरायश ृतङ्गत्वसदम् युवानम् मृगन्न भेमौ गत्नमुग्राम् दृढाचरित्रे रुद्रस्तवानो अन्यन्ते अस्मन्निपन्त्रस्य हेतुर्वृणक्वेशस्य मुखवर्ध्यस्तनश्वमेध्वस्तो कायतनजाग मृडया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 यक्ष्वा महेशो मनसाय रुद्रन्नेवमसुरन् नुमस्या अयम् मे हस्त भगवानयम् मे भगवत्तरा अयम् मे हे विश्वभेशतो यगम् शिवाभिमर्शनः एते सहस्रमयुतम् पाशा यजा सर्वा नवगजामहे मृत्यभे स्वाहा मृत्यभे स्वाहा वोन्नम भगवते रुद्राय विष्णवे मृत्युर्मे भाई प्राणानाम् ग्रन्थिरसिद्रामाभिश्वान्तगाः एनान्येनाहाप्याघस्वा भारद्राय विष्णवे मृत्यर्मे च मे गिरजश्च मे पर्वताश्च मे श्रीकृताश्च मे वनस्वधयश्च मे मे यष्ट मे श्रीसञ्च मे त्रपश्च मे श्यामञ्च मे लोहञ्च मे क्लिष्टमहापश्चमे विरुधश्च मोषधयश्च मे कृष्ण्यञ्च मे मे ग्राम्याश्च मे वसमरण्याश्च मे मे विद्यष्ट मे भोजन्त मे भोजश्च मे वसत मे दिस् मे दिस्मे